श्रीमद्भागवत् महापुराणं महात्म्यम् अस्य चतुर्थोऽध्यायः श्रीमद्भागवत्कास्वरूप प्रमाण श्रोतावक्ता के लक्षण श्रवणविधि और महात्म्यं साधु उचुः जीव जीवचिरमेवं प्रसाधिनः श्रीभागवतमहात्म्यम् अपूर्वं तन्मुखा श्रुतं तत्स्वरूपं प्रमाणं च विधिं च श्रवणे वद तद्वक्तुर्लक्षणं श्रुत श्रोतुश्चापि वदाधुना श्रुतुवाच श्रीमद्भागवतः श्रीमद्भागवतः सदा स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम् श्रीकृष्णाशक्तभक्तानां तन्माधुर्यप्रकाशकं समुद्धिम्भति यद्वाक्यं विद्धिभागवतं हि तत् ज्ञानविज्ञानभक्त्यङ्गचतुष्टयपरं वचः मायामर्दनदक्षं च विद्धि भागवतं च तत् प्रणमा प्रमाणं तस्य को वेद हनन्तस्याक्षरात्मनः ब्रह्मणे हरिणा तदिं चतुश्लोक्या प्रदर्शिता तदानन्त्यावगाहेन स्वेप्सितावहनक्षमाः त एव सन्ति भो विप्रा ब्रह्मविष्णुशिवादयः गतवध्यादिवृत्तीनां बित मनुष्याणां हिताय च परिक्षिक्षुकसंवादो योऽसौ व्यासेन कीर्तितः ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिध कलिग्राहगृहीतानां स एव परमाश्रयः श्रोतारोधनिरूप्यन्ते श्रीमद्विष्णुकसाश्रयाः प्रवरा अवराश्चेति श्रोतारोधिविधा बताः प्रवराश्चातको हंसशुको मीनादयस्तथा अवरावृकभूरुण्डवृष्टो वृषोष्ट्राद्या प्रकीर्तिताः अखिलोपेक्षया यस्तु कृष्णशास्रश्रुतो वृत्ति स चातको यथाम्भोध मुक्ते पाथसि चातकः हंसस्य सारमादत्ते यः श्रोता विविधा श्रुतात् दुग्धेनैक्यं गतात्तो याद्यथा हंसो मलम्पयः सुखसुष्ठुमितं वक्तिर्यासं श्रोत्रिंश्च हर्षयन् सुपाठितशुको यद्वश्चिक्षकम्पाशुगानपि शब्दं नानिमिश्रो जातु करोत्या स्वादि श्रोता स्निग्धो भवेन्मीनो मीन क्षीरनिधौ यथा यस्तु दण्डसिका श्रोत्रिन् विरत्यज्ञो वृकोशिशः वेणुश्व नरसासक्तान् विकोरन्ये मृगान् यथा भूरुण्डशिक्षयेदन्यात् श्रुत्वा न संशयमाचरेत् यथा हिंवत शृङ्गे भूरुण्डाख्यो विहङ्गमः सर्वं श्रुतमुपादत्ते सारासारान्धधिर्विषः स्वारुद्राक्षां खलिं चापि निर्विशेषं यथा वृषः स उष्ट्रो मधुरं मुञ्चन् विपरीते रमेतयः यथा निम्बं चरत्युष्ट्रोषित्वा भ्रमपति तद्युतम् अन्येऽपि बहवो भेदाद्वयोर्भृङ्गखरादयः विज्ञेयास्तत्तदाचारैतत्तत्प्रकृतिसम्भवैः यस्य वाभिमुखं प्रणम्य विधिवन्त्यक्तान्यवादो हरे लीला श्रोतुमभीप्सतेति निपुलो नम्रोच क्लिप्ताञ्जलिः शिष्यो विश्वसितोनुचिन्तनपरः प्रश्नेनुरक्तः शुचि नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभि भगवन्मतिरनपेक्ष श्रृहृदो दिनेशशानुकम्पोयः बहुधा बोधनत्यतुरो वक्ता सम्मानितो मुनिभिः अथ भारतभूस्थाने श्रीमद्भागवतसेवने विधं शृणुतु भो विप्रायेन स्यात् सुखसन्ततिः राजसंसात्विकं चापि तामसं निर्गुणं तथा चतुर्विधं तु विज्ञेयं श्रीभागवतसेवनम्